भीष्म उवाच विहृत्य सत्यभामा वै शच्या सुमध्यमा शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् सम्पूज्यमानस्त्रिदशैर्महर्षि गणसेवितः द्वारकाम्प्रययौ कृष्णो देवलोकादरिन्दमः महा। सोतिपत्य महाबाहुर्दीर्घमध्वानमच्युतः वर्धमानपुरद्वारमाससादपुरोत्तमम् भीष्म उवाच ताम् द्वारकाम् दृष्ट्वा विभुर्नारायणो हरिः हृष्टः सर्वार्थसम्पन्नाम् प्रवेष्टुमुपचक्रमे सोऽपश्यद्वृक्षषण्डाश्च रम्य नारामजान्बहून् समन्ततो द्वारवत्याम् नानापुष्पफलान्वितान् अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः द्वारका सुकृता विश्वकर्मणा